तथाष्टादशः सर्गः रामो विषण्णम् पितरम् शुभे कैकेय्यासहितम् दीनं मुखेन परिशुष्यत स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ततो भवन्दे चरणौ कैकेय्याः सुसमाहितः रामेत्युक्त्वा तु वचनम् बाष्पर्याकुले शशाकणृपतिर्दीनो नेक्षितुम् नाभिभाषितुम् तदपूर्वम् न रपतेर्दृष्ट्वा रूपम् भयावहम् रामोऽपि भयमापन्नः पदा स्पृष्ट्वेवपन्नगम् इन्द्रियैरप्रहृष्टैस्तम् शोकसन्तापकर्षितम् विश्वसन्तम् महाराजम् यथिताकुलचेतसम् ऊर्मिमालिनमक्षोभ्यम् क्षुभ्यम् तमिव सागरम् उपप्लुतमिवादित्यमुक्ता नृतमृषिम् यथा अचिन्त्यकल्पम् नृपतेस्तम् शोकमुपधारयन् पर्वणि चिन्तयामास चतुरो रामः पितृहिते रतः किं स्विदद्यैव नृपतिर्नमाम् प्रत्यभिनन्दति अन्यदा पिता दृष्ट्वा कुपितोऽपि प्रसीदति तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते सदीन इम शोकार्तो विषण्णवदनद्युतिः कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् कच्चिन्मया नापराद्धमज्ञानाद्येन मेऽपिता कुपितस्तन्ममाचक्ष्वत्वमेवैनम् प्रसादय अप्रसन्नमनाह किम् नु सदा प्रतिवत्सलः विषण्णवद नो दीनो न हि माम् प्रतिभाषते शारीरो मानसो वापि कच्चिदेनम् न बाधते सन्तापो वाभितापो वा, वा हि सदा सुखम् कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने शत्रुघ्ने महासत्वे महासत्त्वे मातॄणाम् वा ममाशुभम् अतोषयन् महाराजमकुर्वन् वा, अतो वा पितुर्वचः मुहूर्तमपि नेच्छेयम् जीवितुम् कुपिते यतो मूलम् नरः पश्येत्प्रादुर्भावमिहात्मनः कथम् तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते कच्चित्ते परुषम् किञ्चिदभिमानात्पिता मम उक्तो भवत्या रोषेण येनास्य लुलितम् मनः एतदा चक्ष्वमे देवि तत्त्वेन परिपृच्छतः किन्निमित्तमपूर्वोऽयम् विकारो मनुजाधिपे एवमुक्ता तु कैकेयी राघवेण महात्मना उवाचेदम् सुनिर्लज्जा धृष्टमात्महितम् वचः न राजा कुपितो रामव्यसनम् नास्य किञ्चन किञ्चिन्मनोगतम् तस्य त्वद्भयान्नानुभाषते प्रियम् त्वामप्रियम् वक्तुम् वाणी नास्य प्रवर्तते तदवह्यम् त्वया कार्यम् यदनेनाश्रुतम् मम एष मह्यम् वरम् दत्त्वा पुरामभिपूज्य च स पश्चात्तप्यते राजा यथा न्यः प्राकृतस्तथा मम विशाम् स निरर्थम् गतजले सेतुम् बन्धितुमिच्छति धर्ममूलमिदम् रामविदितम् च सतामपि तत्सत्यम् न त्यजेद्राजा कुपितस्तत्कृते यथा यदि तद्वक्ष्यते राजा, राजा शुभम् वा यदि वा शुभम् सर्वमाख्यास्यामि पुनस्त्वहम् यदि राज्ञा त्वयि तन्न विपत्स्यते ततोऽहमभिधास्यामि न केष त्वयि एतत्तु वचनं श्रुत्वा कैकेय्यासमुदाहृतम् उवाच व्यथितो रामस्ताम् देवीम् नृपसन्निधौ अहोधिन्नार्हसे देवि वक्तुम् मामीदृशम् वचः अहम् हि वचनाद्राज्ञः पतेयमपि पावके भक्षयेयम् विशन्तीक्ष्णम् पतेयमपि चार्णवे नियुक्तो गुरुणा पित्रा नृपेण च तद्ब्रूहि वचनम् देविराज्ञो यदभिकाङ्क्षितम् करिष्ये प्रतिजाने च रामोद्विर्नाभिभाषते तमार्जवसमायुक्तमनार्या सत्यवादिनं। उवाच रामम् कैकेयी वचनम् भृषदारुणम् पुरा देवासुरे युद्धे पित्रा ते मम राघव रक्षितेन वरौ दत्तौ महारणे तत्र मे याचितो राजा भरतस्याभिषेचनम् गमनम् दण्डकारण्ये तव चाद्यैव राघव यदि सत्यप्रतिज्ञम् त्वम् पितरम् कर्तुमिच्छसि आत्मानम् च नरश्रेष्ठ मम वाक्यमिदम् शृणु सन्निदेशेऽपि तु स्तिष्ठ प्रतिश्रुतम् त्वयारण्यम् प्रवेष्टव्यम् नव वर्षाणि पञ्च च भरतश्चाभिषिच्येत यदेतदभिषेचनम् त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव सप्त सप्त च दण्डकारण्यमाश्रितः अभिषेकमिदम् त्यक्त्वा जटाचीरधरो भव भरतः कोसलपतेः प्रशास्त्ववसुधामिमाम् नानारत्नसमाकीर्णाम् सवाजरथसङ्कुला एतेन त्वाम् नरेन्द्रोऽयम् कारुण्येन समाप्लुतः शोकै सङ्क्लिष्टवदनो वदनो नशक्नोति निरीक्षितुम् एतत् कुरु नरेन्द्रस्य वचनम् रघुनन्दन सत्येन महता रामतारयस्व नरेश्वरम् इतीव तस्याम् चैव रामः प्रविभेशोकम् प्रविव्यथे चापि महानुभावो राजा च इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टादशः